मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फोर्टि फैव् शिवविचारवर्णनप्रसङ्गम् श्रीगणेशाय नमः मुद्गल उवाच एवं निश्चितसङ्कल्पसिन्धूरो गिरिजां ततः गृह्योड्डीययौ सद्यो मूर्च्छिताम्भयविह्वलां तस्य श्वसनवेगेन पतिता नन्दिमुख्यकाः गणाः पुनः समुद्धाय हहाकारं प्रचक्रिरे हस्तगापार्वती तत्र सावधाना गजाननज्ञानविहारकारिन् न मां च जानासि परावमर्षां गणेशरक्षस्वन चेच्छरीरं त्यजामि सद्यस्त्वयि भक्तियुक्ता विघ्नस्य शत्रो सुरशङ्कहन्तर्विघ्नेशहैरम्ब महोदरप्रिय मां रक्ष तैत्या त्वयि भक््रियुक्तां लम्बोदरप्रेम विवर्धनाच्युत किं सिद्धिबुद्धिप्रसरेण मोहयुक्तोऽसि किं वा निशि निद्रितोऽसि किं लक्षलाभार्थविचारयुक्त किं मां च विस्मृत्य सुसंस्थितोऽसि किं भक्तसङ्गेन च देवदेवनानोपचारैश्च सुयन्त्रितोऽसि किं मोदकाद्यैर्गणपावृतोऽसि नानाविहारेषु च वक्रतुण्ड स्वानन्दभोगेषु परिप्लुतोऽसि दासीं च विस्मृत्य महानुभाव अनन्दलीलासु सलालसोऽसि किं भक्त रक्षार्थ सुसङ्कटस्थ अहो गणेशामृतपानदक्षामरैस्तथा वासुरपैस्मृतोऽसि तदर्थनाविधि संयुतोऽसि विसृज्य दास्यं त्वमनन्यभावां रक्षस्व मां दीनतमां परेष्य सर्वत्र चित्तेषु ज संस्थितस्त्वं प्रभो विलम्बेन विनायकोऽसि ब्रह्मेश किं देव नमो नमस्ते भक्ताभिमानीति च नाम मुख्यं वेदे महात्मन् आगत्य हत्वा दिदिजं सुरेश मां रक्षदासीं हृदि पादनिष्ठा अहो न दूरं वद किञ्चिदेव कथं न बुद्धीश समागतोऽसि सञ्जिन्त्य देहं प्रजहामि देहि यश करिष्ये विपरीतमेव रक्षरक्षदया सिन्धो पराधान्मे क्षमस्व च क्षणे दास्यो रक्षितव्या विशेषतः तु वन्द्यामेव पार्वत्यां शङ्करो बोधसंयुधः बभूव गणपानां वै श्रुत्वा आहारवं विधे गणेशं मनसा स्मृत्वा विषाजूटः समाययौ क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणात्वहन् ततः शिवं वीक्ष्य लिङ्गितुं धावितो भवद शिवस्य शूलकादीनि सत्राण्या कुण्डितानि वै तद्रिष्ट्वा परमाश्चर्यं भयभीदो महेश्वरः सोपि निर्विघ्नार्थं प्रजापदे पार्वत्यास्तवनं श्रुत्वा स गजानन आययौ ब्राह्मणस्य स्वरूपेण तयोर्मध्ये प्रयुध्यतोः गणेशेन कृतं तत्र कौतुकं परमाद्भुतं पपादगुप्तरूपश्च परशुर्दैत्यवक्षसि तेनाकदं महादैत्यं व्याकुलं वीक्ष्य विघ्नपः तदस्तम् ब्राह्मणः प्राह शृणु दैत्यवचोहितम् जगज्जनिमिमांशक्तिम् मुञ्जनो चर्चिवस्वयम् गुप्तरूपेण सद्यस्त्वाम् मारयिष्यति निश्चितम् अहम् शम्भुम् करिष्यामि त्वदाज्ञावशवर्तिनम् भार्याम् तस्य परित्यज्य कुरुराज्यं त्रिलोकगः तथेति सिन्धुरेणैव कृतं सोऽपि शिवं जगाद जगादहास्यवदनो दैत्याधीनो भवप्रभो ब्रह्मलब्धवरं दैत्यं न जेतुं तं भवान् महेशचक्रिं सङ्गृह्य कालस्य क्रमणं कुरु दैत्यकैलासगो भूत्वा ननन्द विजयीतदः तदकैलासमेवं सत्यक्त्वा भूलो गगो दैत्यस्त्रिभुवनं जित्वा जगदीशो बभूवः अन्तर्धानं चकारासौ गणेशो द्विजरूपदृक् तद्दृष्ट्वा पार्वदी तत्र शोकयुक्ता बभूवः अहो ब्राह्मणरूपेणागतोऽयं गणनायकः मोचयित्वा समां शम्भो त्वां संरक्ष्य ययौ पुनः ततस्तौ पार्वतीशम्भु परलीवनगौ प्रभू बभूवधुश्च विघ्नेशं तपसा हृदि चिंतकौ। तताप तप उग्रं स्रीकशङ्करस्तदः गदे वर्षशदे पूर्णे तं गजानन आययौ गणेश उवाच वरं वृणुमहादेव यत्ते चित्ते प्रवर्तते दास्यामि तपसातुष्ठो वाञ्छितं प्राह शङ्करं तदस्तं शङ्करो नत्वा स्तुत्वा नानाविधैस्तवैः पार्वत्या पूज्य विघ्नेशं प्रणम्य प्रत्युवाचः शिव उवाच वरदोसि गणाधीश तदामेत्वं मे त्वं सुतो भव यावज्जीवनपर्यन्तं तिष्ठनाथ नमोऽस्तु दे त्वया नानावताराश्च धृता मदीयवेश्मनि ते सर्वे स्वल्पकांशस्था बभूवोर्गणनायक तादृशं मा कुरुस्वामिन्वसनित्यं च मे गृहे तत्राहं त्वाम् भजिष्यामि पुत्रभावेन विघ्नभ संसारे पुत्रभावेन मूर्तौ त्वां कुलदैवतम् हृदये योग युक्तोऽहं भजिष्यामि गजाननं तथेधि गणनाधस्तं जगादान्तर्दधे पुनः कैलासमागधशम्भुक्शोकयुक्तो विशेषदः ततः किञ्चिद्गदे काले पार्वतीस्नानमाचरद नग्ना तत्र महेशानः सहसा समुपागतः लज्जिदा तं निरीक्ष्यैव जगदम्बास्वकेशदः देहं सञ्चादयामास शङ्करो गृहगो भवद ततः कदाचित् सा देवी सखीभ्यां संस्थिता भवद उवाच तां सखी तत्र जया च विजया परा जया विजये ऊचदुः गणानन्दिमुख सर्वे स्मदीयानात्र संशयः शिवं यदि निरुध्यैव तिष्ठामच्छेच्छिवात्मकाः अथ कं च महादेवी स्वकीयं वशगं गणम् गुरुत्वं सा ततश्चक्तिस्तधेति प्रत्युवाचते स्वाङ्गान्मलम् समाकृष्य कृत्वा दम् पुरुषाकृतिं पुनः सञ्जीवयामास पार्वतीतं जगादः द्वारे तिष्ठमहाबाहो मदाज्ञया विना पुत्रमा प्रवेश्यत्वया नरः अहं स्नानार्थमत्रैव संस्थिता कालपर्यये पतिर्मे तत्र रेव सत्त्वागतोऽपि भवेत् स्वयं केनापि कथितं तत्रादो मा कुरु च तादृशं स्वामिनं शङ्करं पुत्र निषेद्धस्वमदाज्ञया तथेदितां प्रणम्यादौ द्वारसंस्थो बभूवसः पुरुष सा सखीभ्यां च मुदिदा संस्थिता भवद यदस्मिन्नन्तरे तत्र गणयुक्तशिवो ययौ तं न्यषेद्धस्ववेगेन बोधितोऽपि प्रजापदे ततोदिकोपसंयुक्तशङ्करः प्रबभूवः तज्ज्ञात्वा सा च मुदिदा संस्थिता भवद ततो दिक्रोधसंयुक्तो गणान्नन्दिमुखान् आज्ञापयच्च युद्धाय अन्तव्योऽयं न संशयः ततस्ते शस्त्रसङ्घादयजघ्नुस्तं क्रोधसंयुताः पार्वत्या तेज उग्रं यन्निक्षिप्तं पुरुषे तदा तेजसा शस्त्रसङ्घादा मोखाजादाविशेषदः मुसलेन जखानासौ गणान् सर्वान् महाबलः ततः पलायनं चक्रोर्गणाः सर्वे भयान्विताः ततस्कन्दं शिवक्रुद्धप्रेषयामास दारुणं कुण्डितास्त्रो भयोद्विघ्नसेनानीस्ताडिदो भृशम् पपालच ततः शम्भुः सस्मारामरमुख्यकान् ब्रह्माविष्णुश्च देवेन्द्रो यमाद्याः सर्व प्रणिपत्यमहेशानं संस्थिताश्चाभवन्पुरः तान् शिवः कथयामास वृत्तान्तं ते ततो ययुः युयूधु यु पुरुषेण च पलायनं तेऽपि चक्रुकुण्डितास्त्रा भयातुराः ताडिता मुसलेनैव शङ्करः भवद, तदस्तत्र विचारं ते चक्रु सर्वे सुरेन्द्रकाः विष्णुमुख्या शिवेनैव मुनिभिश्च प्रजापते ओं तत्सदी श्रीमदांदे पुराणोपनिषद्रीमगे महापुराणे चुर्थे खंडे गजानन चिदेशचार वर्णन प्रसंगो नाम पंचच्वरध्याय ओं